बृहदारण्य उपनिषत् अध्यायं सिक्स् ब्राह्मणं वन् ॐ यो ह वै ज्येष्ठं च श्रेष्ठं च वेद श्रेष्ठश्च स्वानां भवति प्राणो वै ज्येष्ठश्चश्रेष्ठश्च ज्येष्ठश्च च श्रेष्ठश्चस्वानां भवत्यपि च येषां बुभूषदिय एवं वेद वेद वसिष्ठस्वानां भवति वाग् वसिष्ठा वसिष्ठस्वानां भवत्यपि च येषां यो ह वै प्रतिष्ठां वेदप्रदितिष्ठति समे प्रदितिष्ठति दुर्गे चक्षुर्वै प्रतिष्ठा समे च दुर्गे च प्रदितिष्ठति प्रदितिष्ठति समे प्रदितिष्ठति दुर्गेय एवं वेद यो ह वै सम्पदं वेदसगृंहास्मै पद्यते यङ्कामङ्कामयदे श्रोत्रं वै सम्पच्छ्रोत्रे हिमे सर्वे वेदा अभिसम्पन्नाः सगृंहास्मै पद्यते यङ्कामं कामयते य एवं वेद यो आयतनं वेदाय तनग्घ्स्वानां भवत्यायतनञ्जनानां मनो वा आयतनमायतनघ्स्वानां भवत्यायतनञ्जनानाय एवं वेद यो ह वै प्रजातिं वेद प्रजाय देह प्रजया पशुभिरेदो वै प्रजातिः प्रजाय देहप्रजया पशुभिर्य एवं वेद तेः मे प्राणा अहघ्श्रेयसे विवदमानाभ्रग्मजग्मुस्तद्धो जुक्को नो वसिष्ठ इति तद्धोवाच यस्मिन्व उत्क्रान्त इदग्ं शरीरं पापीयो मन्यते सवो वो वसिष्ठ इति वाघोच्चक्रामसा संवत्सरं प्रोष्या गत्यो वाच कथमशकदमधृते जीवितुमिधि दे होचुर्यथा कला अवदन्तो वाजा प्राणन्दप्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण विद्वागुंसोमनसा प्रजायमानारेदसैव मयि विस्मेदिप्रविवेशं हवाक् चक्षुर्होच्चक्राम कथमशकदमधृदे जीवितुमिदिदे होचुर्यधान्ता अपश्यन्तश्चक्षुषा प्राणन्तः प्राणेन वदन्दो वाचा शृण्वन्तः श्रोत्रेण विद्वागुंसो मनसा प्रजायमाना रेदसैव मजीविस्मेदिप्रविवेश्यः चक्षुः वाच प्रोश्या गत्योवाच कथमशकदमधृदेगिविदुमिति ते कोचुर्यथा बधिरा अशृण्वन्तः श्रोत्रेण प्राणन्तःप्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा सो मनसा प्रजयामानारेधसैव मयि विस्मेदिप्रविवेशः श्रोत्रम् मनोः चक्राम तत्संवत्सरं प्रोष्या गत्यो जीवितुमिरिदेहोचुर्यथा मुग्धा अविद्वा गुंसो मनसा प्राणन्धः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण प्रजायमाना रेदसैव मयी विस्मेदिप्रविवेशः मनः ोहोच्चक्रामतत्संवत्सरं प्रोष्या गत्यो वाच कथमशकदमधृते जीवितुमिति ते कोचुर्यथाक्लीबा अप्रजायमाना रेदसा प्राणन्तः प्राणेन वदन्दो वाचा पश्यन्तश्चक्षुषा शृण्वन्दश्रोत्रेण विद्वागुं सो मनसैव मयि विष्मेधिप्रविवेश हरेतः अधः प्राण उत्क्रमिष्यन्यथा महासुहयः सैन्धवः पद्वीष्य शङ्कुं संबृहे देवगुंहैवे मां प्राणान् सम्बवर्हते हो जुर्मा भगव उत्क्रमीर्न वै शक्ष्यामस्त्वदृदे जीवितुमिति तस्यो मे बलिङ्कुरुतेति तथेति साह वागुवाच अहं वसिष्ठास्मित्वं तद्वसिष्ठोसि यद्वा अहं प्रदिष्टास्मित्वं तत्प्रदिष्टोसि चक्षुर्यद्वा अहं सम्पदस्मित्वं तत्सम्पद सीदि श्रोत्र यद्वा अहमायदनमस्मित्वं तदा यतन मसीदि मनो यद्वा अहं प्रजातिरस्मि त्वं तत्प्रजातिरसीदि रेधस्तस्यो मे किमन्नं किं वास इति यदिदं किञ्चाश्वभ्य आकृमिभ्य आकीडपदङ्गेभ्यस्तत्तेन्न मापो वास इति न ह वा अस्यानन्नञ्जग्धं भवति नानन्नं प्रतिगृही दय्य एव मेदधनस्यान्नं वेद तद्विद्वागुं सश्रोत्र्या अशिष्यन्त आ चामन्द्यशित्वा चामन्ध्येदमेव तदनमनग्नं कुर्वन्तो मन्यन्ते इति षष्ठोऽध्याये प्रथमं ब्राह्मणम् ओ बृहदारण्य उपनिषत् अध्यायम् 6 ब्राह्मणम् 2 ओ स्वेदके दुर्ह वा आरुणेयः पञ्चालानां परिषदमाजगामस आजगामजैवलिं प्रवाहणं परिचारयमाणन् तमुदीक्ष्याभ्युवाद कुमारा इति स भो इति प्रतिशुश्रावनुशिष्ठोन्वसि पित्रेत्योमिति होवाच वेद्ध यथेमास् प्रजास्प्रयत्यो विप्रदिपद्यन्ता इति नेदिहोवाच वेद्धो यथेमल्लोकं पुनरापद्यन्ता इदि नेदि हैवो वाच वेद्धो यथा सौ लोक एवं बहुभिः पुनः पुनः प्रयद्भिर्न सम्पूर्यत इति हैवो वाचवेद्धो यदि ध्या माहुत्यागुं हुदाय पुरुषवाचो भूत्वा समुद्धाय वदन्ती इति नेदि हैवो वाच वेद्धो देवयानस्य वा पदप्रतिपदं पितृयाणस्य वा यत्कृत्वा देवयानं वा पन्थानं प्रतिपद्यन्ते पितृयाणं वापि हि न ऋषेर्वच्रुतन्ध्वे श्रुती अश्रुणवं पितृणामहन् देवानामुदमर्त्यानान्ताभ्यामिदं विश्वमेजत्समेधि यदन्तरां पितरं माधरं चेदि नाहमदये कञ्चन वेदेदि होवाच अश्रुणवम् पितॄणामहन्देवानामुदमर्त्यानां ताभ्यामिदं विश्वमेजत्समेधि यदन्तरापितरमादरं चेदि नाहमद ये कञ्चन वेदेति होवाच अधैनम्बस्त्योपमन्त्रयाञ्चक्रेणाधृत्य वसति कुमारप्रदुद्रावस आजगाम पितररन्तगुं होवाचेदि वावकिल नो भवान् पुरानुशिष्टानवोच इति कथगुं सुमेध इति पञ्चमाप्रश्नान्जन्यबन्धुरप्राक्षी तदो नै कञ्चन वेदेदि कदमेदयिदिम इदिहप्रतीकान्युदा जहार सहोवाच तथा नस्त्वन्तादजानीधा यथा यदहङ्किञ्च वेद सर्वमहन्तत्तुभ्यमवोचं प्रेहीतु तत्र प्रदित्यब्रह्मचर्यं वत्स्याव इति भवानेव गच्छत्विति स आजगामगौतमो यत्र प्रवाहनस्य जैवलेरास तस्मासनमाहृत्योदगमाहारयाञ्चकाराधः स्म अर्ध्यं चकारतगुंहोवाच वरं भगवते गौतमाय दत्म इति सहो सहोवाच प्रतिज्ञातोम एषवरो यान्दुकुमारस्यान्दे वाचमभाषधास्तां मे ब्रूहीति सहोवाच दैवेषु वै गौतमतद्वरेषु मानुषाणां ब्रूहीति सहोवाच विज्ञायदेहास्ति हिरण्यस्य पातङ्गो अश्वानां दासीनां प्रवाराणां परिधानस्य मानो भवान् बहोरनन्दस्यापर्यन्तस्याभ्यवद्यानो भूदिदि स वै गौतमतीर्थे नेच्छ स इत्युपाैम्यहं भवन्तमिति वाचा हस्मैव वा पूर्व उपयन्ति सहोपायनकीर्त्योवास सहोवाच तथा नस्त्वं यथेयं विद्येदपुर्वन् कस्मिश्चन ब्राह्मण उवासतान्त्वहन्तुभ्यं वक्ष्यामि को हि त्वैवं ब्रुवन्तमर्हति प्रत्याख्यातुमिति असौ वै लोकोऽग्निर्गौधमतस्यादित्य एव समिद्रश्मयो धूमोहरर्चिर्दिशोऽकारा अवान्तरदिशो विस्फुलिङ्गास्तस्मिन्नेदस्मिन्नग्नौ देवा श्रद्धाजुहदी तस् आहुत सोमो राजा संभवती पर्जन्यो वा अग्निर्गौतम तर संत्सर समदभ्राणी धूमो विद्यु विदुदर्चिशनिंगारा ख्रादुनयो विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवासोमघुं राजानञ्जुह्व तस्या आहुत्यै वृष्टिः सम्भवति अयं वै दोकोऽग्निर्गौतमतस्य पृथिव्येव समिदग्निर्धूमो रात्र्यार्थ चिश्चन्द्रमा अङ्गारा नक्षत्राणि विस्फुलिङ्गास्तस्मिन्ने तस्मिन्नग्नौ देवावृष्टिं जिह्वति तस्य आहुत्या अन्नघुं सम्भवति पुरुषो वा अग्निर्गौतम तस्य व्यात्तमेव समित्प्राणो धूम्रो वा गर्चिश्चक्षुरङ्गारा श्रोत्रं विस्फुलिङ्गस्तस्मिन्नेदस्मिन्नग्नौ देवा अन्नञ्जुह्वति तस्य आहुत्यैरेदसम्भवति योषा वा अग्निर्गौतम उपस्तयेव समिल्लोमानिधोमो यो निरर्चिर्यदन्धकरोति श्रेङ्गारा अभिनन्दा विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवारेधो जुह्वति तस्य आहुत्यै पुरुषः सम्भवति स जीवति यावज्जीवत्यथ यदा म्रियते अधैनमग्नये हरन्ति तस्य समित् समित् धूमो धूमोर्चिरर्चिरङ्गारा अङ्गारा विस्फुलिङ्गा विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवा पुरुषं जुह्वति तस्य आहुत्यै पुरुषो भास्वरवर्णः सम्भवति श्रेय एवमे दद्विदुर्ये चामी अरण्ये श्रद्धागुं सत्यमुपासते तेऽर्चिरभिसं भवन्त्यर्चिषोहराह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षण्मासानुदङ्गादित्य एदि मासेभ्यो देवलोकान् देवलोकादादित्यमादित्याद्वैद्युतन् तान् वैद्युदान् वैद्युदान् पुरुषो मानस एत्य गमयदिते तेषु ब्रह्मलोकेषु पराः परावधो वसन्ति तेषान्न अथ ये यत्नेन दानेन तपसान् जयन्ति ते धूममभिसम्भवन्ति धूमाद्रातृगुं रात्रेरपक्षीयमाणपक्षमपक्षीयमाण रा पक्षाद्यान् षण्मासान् दक्षिणादित्य येदि मासेभ्यः पितृलोकं पितृलोकाचन्द्रन्ते चन्द्रं प्राप्यान्नं भवन्ति तागुस्तत्र देवा यथा सोमगं राजानमाप्यायस्वा पक्षी यस्वेत्येव भक्षयन्ति तेषा यदा तात्पर्यवैद्यधेमेवकाशमभिनिष्पद्यन्त आकाशाद्वायुं वायोर्वृष्टिं वृष्टे पृथिवीं ते पृथिवीं प्राप्यान् भवन्ति पुनः पुरुषाग्नौ हूयन्ते ततो योषाग्नौ जायन्ते ते लोकान् प्रत्युधायि नस्त एवमेवानुपरिवर्तन्ते धया ये पन्था नौ न विधुस्ते क्रीडापदङ्गायदि दन्दशूकम् दं इति षष्ठोऽध्याये द्वितीयं ब्राह्मणम् ओ बृहदारण्य उपनिषत् अध्यायं सिक्स् ब्राह्मणं त्रि ओ सहकामयेदमखत्प्राप्नुयामित्युदगजन आपूर्यमाणपक्षस्य पुण्याहे द्वादशाहमुपसध्वृदी भू त्वौ दुम्बरे चमसेवा क्षमसेवा सर्वौषधं फलानिधि संहृत्य परिसमुह्य मुपसमाधाया परिस्तीर्या वृथा जगुं सघुस्कृत्य पुगुं सा नक्षत्रेण मन्धगुं सन्नियजुहोति या वन्दो देवास्त्वयि जाधवे पुरुषस्य कामान् तेभ्योऽ सम्भागधेयञ्जुहोमिदे मा तृप्तास्सर्वै कामैस्तर्पयन्दुः स्वाहा या तिरश्चि निपद्यतेऽं विधरणि इति तान्त्वा धारया यजे सगुम्राधनी राधनी महघ् स्वाहा ज्येष्ठा यः हुत्वा मन्धे सघ्स्रवमवनयदि प्राणा यः स्वाहा वसीय स्वाहेतीनौ हु मंदे सगस्रवम वनयदी वाचे स्वाहा प्रतिष्ठा स्वाहेनुंधे सगस्रवम वनयदी चक्षुषे स्वाहा संपते स्वाहेनौ मन्दे सग्वमवनयदि श्रोत्राय स्वाहाय तनाय स्वाहेत्यग्नौ हुत्वा मन्दे सग्मवनयदि मनसे स्वाहा प्रजात्यै स्वाहेत्यग्नौ हुत्वा मन्दे सग्स्रवमवनयदि रेदसे स्वाहेत्यग्नौ मन्धे सग्स्र वम वनयदि अग्नेये स्वाहेत्यग्नौ मन्धे सघ्स्रवम वनयदि सोमाय स्वाहेत्यग्नौ हुत्वा मन्धे सघ्स्र वम वनयदि भूः स्वाहेत्यग्नौ मन्धे सगृस्र वम वनयदि भुवः स्वाहेत्यग्नौ हुत्वा मन्धे सगस्रवमवनयदि स्वस्वाहेत्यग्नौ हुत्वा मन्धे सगस्रवमवनयदि भूर्भुवः हुत्वा मन्धे सगस्रवमवनयदि ब्रह्मणे स्वाहेत्यग्नौ हुत्वा मन्धे सग्वमवनयदि क्षत्राय स्वाहेत्यग्नौ सग्वमवनयदि विश्वा स्वाहेत्यग्नौ हुत्वा मन्धे सग् श्रवमवनयदि सर्वा हुत्वा मन्धे सघ्स्रवमवनयदे प्रजापदये स्वाहेत्यग्नौ हुत्वा मन्धे सग्वमवनयदि अधैनमभिमृषदिभ्रमदसिज्ज्वलदसि भूर्नमसि प्रस्तब्धमस्येग सभमसि हिङ्कृदमसि हिङ्क्रियमाण मस्युद्गीर्धमानमसि श्रविदमसि प्रत्याश्राविद मस्यार्द्रे सन्दीप्तमसि विभुरसि प्रभुरस्यन्न मसि ज्योतिरसि निधनमसि संवर्गोऽसीति अधैनमुध्यच्छत्यामघुस्यामगुं हृदेमहिष हि राजेशानोऽधिपतिः स मागुं राजेशानोऽधिपदिं करोत्विति अधैनमाजामधितत्सविदुर्वरेण्यं मधुवादाहृदा यदे मधुक्षरन्दिसिन्धवः माध्वीर्नः सन्त्वोषधीः भू भर्गो देवस्य धीमहि मधुनक्तमुतोषसो मधुमत्पार्थिवगुंव्रजः मधुद्यौरस्थुनः पिता भुवः स्वाहा धियो यो न प्रचोदयात् मधुमानो वनस्पतिर् मधुमार्गुम् अस्तु सूर्यः माध्वीर्गावो भवन्तु नः स्वस्वाहेति सर्वं च सावित्रीमन्वाहसर्वाश्च मधुमधीरह मे वेदगुं सर्वं भूयास्सं भूर्भुवः स्वस्वाहेत्यन्तत आचम्यपाणिप्रक्षाल्य जघनें प्राक्षिरा सं विशद प्रादरादिमुपतिषे दिशापुंडीक मनुष्याणकुंडरीकूयासमी यथेदेजने मीन नो वगुं सं जपतिमुद्दाल आरुणिर्वाजसनेज्यासीन उक्त वाचा पिया नुष्के स्थाण ये जायेरचाखा प्ररोस नीति े दुख वाजसनेज्ञव्यो मधुगाय पैंग्यावासीन उक्तों वाचा ये नघुम शुष्क निषिचे जायेरचा घरो दुहुक पैङ्ग्यश्चूलाय भागवित्त उक्तो वाचापियेनघुं शुष्के स्थाणौ निषिञ्चे जायेरञ्चाकाः प्ररोहेयुः प्ररोहेयु एदमुखैव चूलो कागवित्तिर्जानकय आयस्थूणायान्देवासिनौ उक्तो वाचापिय येन गुं शुष्केस्ताणौ निषिञ्जे ज्याये रञ्चागा प्ररोहेयु पलाशाति ये दमुहैव जानकिरायस्तूण सत्यकामाय जाबाला यान्देवासिन उक्तो वाचापिय ये नम शुष्क निषिंचेजा रखा प्ररोहेयुलाशति ये दमुह सत्य कामों चालों वासीभ्य उक्त वाचापि ये नग शुष्केस्थाण निषिंचेजा रखा प्ररोहेयुलाशति तमे तन्ना पुत्राय वानन्दे वासिने वा ब्रूयाद चतुरौ दुम्बरो भवत्यौदुम्बरसुव औदुम्बरश्चमस औदुम्बर इद्म औदुम्बर्या उपमन्धन्यौ दशग्राम्याणि धान्यानि भवन्तिव्रीह्य वा स्थिलमाषा अणु प्रियं गवो गोधूमाश्च मसूराश्च खल्वाश्च खलकुलाश्च तान् पिष्टान् दधनि मधुनिकृत जुहोदि इति षष्ठोऽध्याये तृतीयं ब्राह्मणम्